नारदपुराणं पूर्वार्थम् अध्यायं 51 वन् अथातः सम्प्रवक्ष्यामि कल्पग्रन्थं मुनीश्वर यस्य विज्ञानमात्रेण स्यात् कर्मकुशलो नरः नक्षत्रकल्पो वेदानां संहितानां तथैव चतुर्थस्यादाङ्गिरसशान्तिकल्पश्च पञ्चमः नक्षत्राधीश्वराख्यानं विस्तरेण यथा नक्षत्रकल्पे निर्दिष्टं ज्ञातव्यं तदिहापि वेदकल्पे विधानं तु ऋग्वादीनां मुनीश्वर धर्मा कामोक्षाण सिद्ध्य प्रोदर मंत्राणय्चा स्यथ चिष्ट संहिता कल्ये मुनिदर्शि तथ्वांगिसे कल ष्कर्मा सविस्तर अभीचार विधान निर्दिष्ठानि स्वयं चान्धिकल्पे दु दिव्यानां भौमानां मुनिः सप्तमस्तथान्दरिक्षोत्पादानां चान्दयोह्युदिदा पृथक् सङ्क्षेपेणैदुदिष्टं लक्षणं कल्पलक्षणे विशेष पृथगे तेषां च गृह्यकल्प्यतु सर्वेषामुपयोगितयाधुना वक्ष्यामि ते द्विजश्रेष्ठ सावधानतया शृणु ओङ्कारश्चाधशब्दश्च द्वा वेदौ ब्रह्मणः पुरा भित्वा विनिर्यादौ तस्मान् माङ्गल्यकाविमौ प्रोक्ता कर्मा तदूर्धनी करो शोधशब्द प्रयुंजीद तथ नंदष्य कुशापरी समूस्तर्ति न्यूनाधिकफलाय कर्मणिमत से कृमि कीडपतङ्गाब्द्याभ्रमदि वसुधातले तेषां संरक्षणार्थाय प्रोक्तं परिसमूहनं रेखाप्रोक्ताश्च यास्तिस्र कर्तव्यास्ताः समाद्विज न्यूनाधिका कर्तव्या इत्येव परिभाषितम् मेदिनी मेधसा व्याप्ता मधुकैढपदैत्ययोः गोमयेनोपलेप्येयं तदर्थमिति नारद वन्ध्या दुष्टा जीनाङ्गी मृदवत्सा सच या भवेद यज्ञार्थं गोमयं तस्य नाहरेदिति भाषितं ये भ्रमन्ति सदा काश्ये पदङ्गाद्या तेषां प्रहरणार्थायमदं प्रोद्धरणं द्विज स्रुवेण च कुशेनापि कुर्यादुल्लेखनं भुवः अस्ति कण्टकसिद्ध्यर्थं ब्रह्मणा परिभाषितम् आपो देवगणः सर्वे तथापितृगणाद्विज केनाद्भिदुक्षणं प्रोक्तं मुनिभिर्विधिको वितैः अग्नेरानयनं प्रोक्तं सौभाग्यस्त्रीभिरेव च शुभदे मृण्मये पात्रे प्रोक्ष्याभिष्टं निधापयेत् अमृतस्य क्षयं दृष्ट्वा ब्रह्माद्यैः सर्वदैवतैः वेद्यां निधापितस्तस्मात् समिद्गर्भो कुदाशनः दक्षिणस्यां दानवाद्यास्थिता नारद तेभ्यः संरक्षणार्थाय ब्रह्माणं तद्दिशिन्यस्येत् उत्तरे सर्वपात्राणि प्रणीताद्यानि पश्चिमे यजमान पूर्वत्युर्जी नारद दूते च व्यवहारे चर्मी चेद कर्तन नितिस्तर्म नश्येद स्थिति ब्रह्मचार्य स्वशाख कर्तव्यौ यकर्मि पृथ्वीजा नियमो नास्ति यथा लाभं समर्चयेद द्वे पवित्रे त्र्यङ्गुले स्थाः प्रोक्षिणी चतुरङ्गुला आद्यस्थाली त्र्यङ्गुलाध त्र्यङ्गुलाध चरुस्थाली षडङ्गुला द्व्यङ्गुलं तूपयं मनमेकम् सम्मार्जनाङ्गुलं स्रुवं षडङ्गुलं प्रोक्तं सार्धत्रयाङ्गुलं प्रादेशमात्रा षडङ्गुलं प्रोक्षिण्या उत्तरे भागे प्रणीता पात्रमष्टभिः यानि कानि च समुद्रासरितस्तथा प्रणीतायां समासन्नास्मातां पूरयेज्जलैः वैदिका वस्त्रहीना च नग्ना सम्प्रोच्यते द्विज परस्तीर्य तदोदर्भैः परि दध्यादिमाम्बुधः इन्द्रवज्रं विष्णुचक्रम् वामदेवत्रिशूलकं दर्भरूपतय त्रीणि पवित्रच्छेदनानि च प्रोक्षणी च प्रकर्तव्या प्रणीतोदकसंयुता तेनादिपुण्यदं कर्म पवित्रमिति कीर्तितम् प्रकर्तव्या फलमात्रप्रमाणिका कुलालचक्रखटितम् आसुरमृण्मयं स्मृतम् तदेव हस्तखडितं स्थाल्यादि भवेद् स्रुवे च सर्वकर्माणि शुभान्यप्यशुभानि च तस्य चैव पवित्रार्थं वनौत्थापनमीहितम् अग्रेभृदेन वैधव्यम् मध्ये चैव प्रजाक्षयः मूले च म्रियदेहोद तस्माद्धार्यं विचार्य तत् अग्निसूर्यश्च सोमश्च विजिञ्चिरनिलो यमः स्रुवे षडेदे दैवास्तु प्रत्यङ्गुलमुपाश्रिताः अग्निर्भोगार्धनाशाय सूर्यो व्याधिकरो भवेद निष्फलत्तु स्मृतः सोमो विरिञ्चित्सर्वकामदः अनिलो वृद्धित प्रोक्तो यमो मृत्युप्रदो मदः सम्मार्जनोपयमनम् अर्धव्यं च कुशद्वयं पूर्वं तु सर्वशाखं स्यात् पञ्चशाखम् तथा परम् श्रीपर्णे च शमितद्वत्खदिरश्च विकङ्कथा विकङ्कदः फलाशश्चैव विज्ञेयाश्रुवेचैव तथाश्रुचि हस्तोन्मिदं स्रुवंशस्तं त्रिदशाङ्गुलिकं स्रुचं विप्राणां चैददाख्यादम् ्यन्येषामङ्गुलोनकम् शूद्राणां पतितानां च खरादीनां च नारदृष्टिदोषविनाशार्थं पात्राणां प्रोक्षणं स्मृतम् अकृते पूर्णपात्रे तु यज्ञच्छिद्रं समुद्भवेद् तस्मिन्पूर्णीकृते विप्रयज्ञसम्पूर्णता भवेत् अष्टमुष्टिर्भवेत् किञ्चित् पुष्कलं तच्चतुष्टयं पुष्कलानिदु चत्वारि पूर्णपात्रं विदुर्बुधाः होमकाले दुःसम्प्राप्ते न दद्यादासनं क्वचिद् तृप्तो भवेद्वह्निशापं दद्याच्च दारुणम् आकारौ नासिके प्रौक्तौ आज्यागौ च चक्षुषी प्राजापत्यं मुखं प्रोक्तं कढिर्व्याहृदिभिः स्मृता शीर्षं हस्तौ च पादौ च पञ्चवारुणमीजितं तथा स्विष्टकृतं विप्रश्रोत्रे पूर्णा हुदिस्तथा द्विमुखं चैकहृदयं सव्य चुश्रोत्रशिशी षण पिंगल सप्तजिहक चुस्त दक्षिण सुव चाक्षा शक्तिदिणे करेखल द कृतपात्रं द्विचामरं मेषारूढं चतुःशृङ्गं बालादित्यसमप्रभम् उपविधसमयुक्तं जडाकुण्डलमण्डितं ज्ञात्वैव अग्निदेहं तु होमकर्म समाचरेत् पयोदधिघृतं चैव स्नेहपक्वं तथैव च जुहुयाद्यस्तु हस्तेन स विप्रो ब्रह्मा भवेद् यदन्नं पुरुषोष्णादि तदन्नं तस्य देवताः सर्वकामसमृद्ध्यर्थं तिलाधिक्यं हविर्मदम् होमे मुद्रात्रयं प्रोक्तं मृगी हंसी च अभिचार्ये सुकरी स्यान्मृगी हंसी शुभात्मके सर्वाङ्गुलीभित्रौडी स्याद् हंसी मुक्तकनिष्ठिका मध्यमानामिकाङ्गुष्ठैर्मृगी मुद्रा प्रकीर्तिता पूर्वप्रमाणयाहुत्या पञ्चाङ्गुलिगृहीतया दधि मध्वाजसंयुक्तं ऋत्विग्भिर्जुहुयात्तिलैः कुश्यास्त्वनामिकासखाकार्या स्युपुण्यकर्मणि विनायककर्म विघ्नसिद्ध्यर्थं विनियोजितः गणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा तेनोपसृष्टो यस्तस्य लक्षणानि निबोधमे स्वमेव गाहतेत्यर्थं जलं मुण्डांश्च पश्यति कामाय वासश्चैवक्रव्यादांश्चाधिरोहधि अन्ध्यजैर्गर्दभैरुष्ट्रैः सहैकत्रावतिष्ठदे व्रजन्नपि तथात्मानं मन्यतेनुगदम्बरैः विमना विफलारम्भः संशीदत्यनिमित्तदः तेनोपसृष्टो लभदेन राज्यं राजनन्दनः कुमारी न भर्तारमपत्यं गमङ्गना आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा वणिग्लाभं न चाप्नोगि कृषिं चापि कृषीवलः स्नपनं तस्य कर्तव्यं पुण्ये विधिपूर्वकं गौरसर्षपकल्केन स्वस्ति वाच्याद्विजयशुभाः अश्वस्थानाद्गजस्थानाद्वल्मीकात् शङ्कमाध्रताद मृत्तिकां रोचनां गन्धान् गुग्गुलुं चाशु निक्षिपेद पात्र्या हृदा ह्येगवर्णैश्चदुभिक्कलशैर्ह्रदाद् दुहेरक्रेस्ताप्यं भद्रासनं तदह सहस्राक्षं च दारं ऋषिभिः पावनं कृतं तेन त्वामभिषिञ्चामि पावमान्या पुनन्दुते भगं देवरुणो राजा भगं सूर्यो बृहस्पतिः भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः यत्तेकेष्येषु दौर्भाग्यं सीमन्ते यच्च ललाडे रावस्तु राभस्तुदन्धु सर्वदा स्नानस्य सार्षपं तैलं स्रुवेणौदुम्बरेण तु जुहूयान्मूर्धनि कुशान् सव्येन परिगृह्य च मितश्च संमितश्चैव तथा शालकटङ्कढौ कूष्माण्डो राजपुत्रश्चेत्येदे स्वाहा नाम नमस्कार नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः दद्याश्चतुष्पर्धे सूर्ये कुशानास्थिर्य सर्वदः कृता कृतास्तण्डुलीश्च पललौदनमेव च मस्यान् पक्वांस्तथवा मान् मां पुष्पं चित्रसुगन्धं च सुरां च त्रिविधामपि मूलकं पूरिकापूपांस्तथैवस्रजोऽपि च दध्यन्नं पायसं चैव गुडपिष्ठं समोदकं एतान् सर्वानुपाहृत्य भूमौ कृत्वा तदशिरः विनायकस्य जननीमुपतिष्ठेत्तदोऽम्बिकां दूर्वा सर्षप सर्षपपुष्पाणां दत्वार्घ्यं पूर्णमञ्जलिं रूपं देहि यशो देहि भगं भगवद् देहि मे पुत्रान् देहि धनं देहि सर्वान् कामांश्च देहि मे उपस्थाय शिवां दुर्गामुमापदिमधार्चयेद् धूपैर्द्वीपैश्च नैवेद्यैर्गन्धमाल्यानुलेपनैः तदशुक्लाम्बरधरशुक्लमाल्यानुलेपनः ब्राह्मणान् भोजयेत्पश्चाद्वस्त्रयुग्मं गुरोरपि एवं विनायकं पूज्य ग्रहांश्चैव प्रपूजयेत् श्री श्रीकामशान्तिकामो वा पुष्टिवृद्ध्यायुर्वीर्यवान् सूर्यसोमो महीपुत्रो बुधो जीवो भृगुशनिः राघुकेदू न वाप्येदेष्टापनीयाग्रहाक्रमाद ताम्रकाद्रजताद्रक्रचन्दनात् स्वर्णकादपि हेम्नो रचतादयसी सा कार्याशुभाप्तये स्ववर्णैर्वापडे लेख्या गन्धैर्मण्डलकेषु च यथा वर्णं प्रदेयानि वासांसि कुसुमानि च गन्धाश्च बलयश्चैव धूपो देयश्च गुग्गुलुः कर्तव्या मन्द्रवन्तश्च चरव प्रदिदैवतम् आकृष्णेन इमं देवा अग्निर्मूर्धा दिवककुद उद्बुद्ध्य स्वादि यदर्यस्तथवान्नात् परिहृतः शन्नो देवीस्तथा काण्डात्केतुं कृण्वन्नकेदवः अर्कपलाशकीरस्त्वपा मार्गोधपिप्पलः उदुम्बरशमी दूर्वाकुशाश्च समिधक्रमाद एकैकस्मादष्टशतमष्टाविंशतिरेव च ओदव्यां मधुसर्पिर्भ्यां दध्नाक्षीरेण वा गुडौ धनं पायसं च हविष्यं क्षीरशाष्टिकं दध्योदनं हविश्चूर्णं मांसं चित्रान्नमेव च दद्या ग्रहक्रमादेदद्विजेभ्यो भोजनं बुधः शक्तितोपि यथालाभं सत्कृत्य विधिपूर्वकम् धेनुशङ्कस्तनड्वान् हिमवासो खयक्रमाद कृष्णागौराय सञ्चाग यदा वै दक्षिणा स्मृता यस्य यस्य दुयद्रव्यं फले नार्च्यसतेन च ब्रह्मण्येषां वरो दत्तपूजिता पूजयिष्यधः ग्रहाधीनरेन्द्राणां धनजात्युच्चयास्तथा भवा भावौ च जगदस्तस्मात्पूज्यतमाग्रहाः आदित्यस्य सदा पूजा तिलकस्वामिनस्तथा महागणपदेश्चैव कुर्वन्सिद्धिमवाप्नुयाद कर्मणां सफलत्वं च श्रियं वाप्नोत्यनुतमाम् अकृत्वा माद्र तु यो ग्रहार्चां समारभेदकुप्यन्ति मातरस्तस्य प्रत्युखं कुर्वते तथा वसोपवित्रमान्द्रेण वसोर्धारां प्रकल्प्य प्रकल्प्यच गौर्याद्या मातरपूज्या मंगल्येशु शुभार्थिभिः गौरीपद्मा शचीमेधा सावित्रिविडया जया देवसेना स्वथा स्वाहा मातृका वै धृतिर्धृतिः पुष्टिर्हृष्टिस्तथा तुष्टिरात्मादेवतया स्थ गणेशेनाधिकाख्येदा वृद्धौ पूज्यास्तु षोडश आवाहनं तथा पाद्यमघ्यं स्नानं च चन्दनं अक्षतांश्चैव पुष्पाणि धूपं दीपं फलानि च नैवेद्याचमनीयं च ताम्बूलम् पूगमेव च नीराजनं दक्षिणां चक्रमा दद्या पितृकल्पं प्रवक्ष्यामि धनसन्तधिवर्धनम् अमावास्याष्टका वृद्धिः कृष्णपक्षायनद्वयम् द्रव्यं ब्राह्मणसम्पत्तिर्विषुवत्सूर्यसङ्क्रमः व्यधिपादो गजच्छायाग्रहणं चन्द्रसूर्ययोः श्राद्धं प्रतिरुचिश्चैव श्राद्धकालाप्रकीर्तिताः अग्र्या सर्वेषु वेदेषु श्रोत्रियो ब्रह्म विद्युवा वेदार्थविज्येष्ठसामात्रिमधुस्त्रिसुपर्णकः स्वश्रीयऋत्विजमादा याज्यश्वसुरमातुलाः तृणाचिकेतदौहित्रशिष्यसम्बन्धिबान्धवाः कर्मनिष्ठास्तपोनिष्ठा पञ्चाग्निब्रह्मचारिणः रोगी पितृमातृपराश्चैव ब्राह्मणाश्राद्धसम्पदः रोगीन्यूनादि रिक्दाङ्गकाणपौनर्भवस्तथा अवकीर्णि कुण्डगोलौ कुनकीच्यावदन्तकः भृदकाद्यापकक्लीबकन्या दूष्यभिषस्तकः मित्रदृक्तिशुनः सोमविक्रयीपरिविन्दकः मातृपितृगुरुत्यागी कुण्डाशी वृषलात्मजः परपूर्वापदिस्तेन कर्मभ्रष्टाश्च निन्दिताः निमन्त्रयेद पूर्वेद्युग्राह्मणानात्मनान् शुचिः तैश्चाभि संयक्तैर्भाव्यं मनोवाकायकर्मभिः अपराह्ने समभ्यर्च्य स्वागतेनागतां स्तुतान् पवित्रपाणिराचान्दानासने चोपवेशयेद् विप्रान् दैवे यथा शक्तिपित्र्ये युक्मां तथैव च पराश्रुते दे शुचौ देशे दक्षिणाप्रवणं तथा द्वौ देव दैवे द्वौ दैवेत्रयपित्र्ये उदगे कैकमे वच मादामहानामप्येवं तत्र वा वैश्वदैविकं पाणिप्रक्षालनं दत्वा विष्टरार्थं कुशानपि आवाहये धनुज्ञादो विश्वेदेवास इत्यरुचा यवैरन्वा वकिर्याध भाजने स पवित्रके शन्नो देव्या अपःक्षिप्त्वा यवोऽसीदि यवांस्तधा या दिव्या इति मन्त्रेण हस्ते पाद्यं विनिः क्षिपेद दत्वोदगं गन्धमाल्यं प्रदायान्नं स अपसव्यं तद कृत्वा पितॄणां सप्रदक्षिणम् द्विगुणांस्तु कुशान् दत्त्वा क्षुषन्तस्त्वेत्यर्चा पितॄन् आवाह्य तदनुज्ञातो जपे दायान्दु नस्तदः जवार्थास्तु हिलैकाल्या कुल्या दर्क्यादि पूर्ववद दत्वार्घ्यं संस्तेषां पात्रे कृत्वा विधानतः पितृभ्यस्थानमसीदिन्युब्जं पात्रं करोत्यधः अग्नौ करिष्यन्नादाय पृच्छत्यन्नं कृतप्लुतं कुरुष्वेत्यभ्यनुज्ञादो दत्त्वाग्नौ पितृ यज्ञवद हुदशेषम् प्रदद्यात्तु भाजनेषु समाहितः यथा लाभोपपन्नेषु रौप्येषु च विशेषदः दत्त्वा पृथ्वीपात्रमिति पात्राभिमन्त्रणं कृत्वेदं विष्णुरित्यन्ये द्विजाङ्गुष्टं निवेशयेद सव्याकृतिकां गायत्रीं मधुवाद इति शं त्यक्त्वा यथा सुखं वाच्यं भुञ्जीरं स्तेऽपि वाग्यथाः अन्नमिष्टं हविष्यं च दद्यादाक्रोधनोत्वरः आदृप्तेस्तु पवित्राणि जत्वा पूर्वजपं तथा अन्नमादाय तृप्तास्थः शेषं चैवानुमान्य च तदन्नं विकिरोद्भूमौ दद्या चापः सकृत् सकृद् सर्वमन्नमुपादाय सतिलं दक्षिणामुखः उच्छिष्टसन्निधौ पिण्डान् दद्या द्वौ पितृयज्ञवद मादा महानामप्येवं दद्यादाचमनं तदः स्वस्ति वाचं ततः कुर्या दत्वा जदक्षिणां शक्रिया स्वधाकारमुदाहरेद वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यतां ब्रूयिरस्तु स्वधेत्युक्ते भूमौ सिञ्चेत्तदो जलं विश्वे देवाश्च प्रीयन्तां विप्रैश्चोक्त इदं जपेद दादारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च श्रद्धा च नो मा व्यगमद्बहुधेयं इत्यु प्रिया इत्युक्तोक्ताः प्रनिपत्य विसर्जयेत वाजे वाजे इति प्रीतः पितृपूर्वं विसर्जनम् यस्मिंस्ते संश्रवापूर्वमाख्यपात्रे निवेशिताः पितृपात्रं तदुद्धानं कृत्वा विप्रान् विसर्जयेद् प्रदक्षिणमनुव्रज भुञ्जेद पितृसेवितं ब्रह्मचारी भवेत्तान्तु रजनीं ब्राह्मणैः सह एवं प्रदक्षिणावृत्या वृद्धौ नान्दीमुखान् पितॄन् यचेददधिकर्कन्धोमिश्रान् पिण्डान्यवै कृतान् ये, दा ये कोद्दिष्टं देवहीनमेवार्ख्यैकपवित्रकम् कर आवहनाग्नौ करणरहितं ह्यपसव्यवदमुप तिष्ठतामक्षय्यस्थाने विप्रविसर्जने अभिरम्यतामिति वदेद् भ्रूयुस्तेभिरदा स्मः गन्धोदकं तिलैर्युक्तं कुर्यात् पात्रचतुष्टयम् अर्क्यार्थं पितृपात्रेषु प्रदपात्रं प्रसे च ये समाना यदिद्वाभ्यां शेषं पूर्ववदाचरेद् येदत् सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि अर्वाक् सपिण्डीकरणं यस्य संवत्सराद्भवेद् तस्याप्यन्नं सोदकुम्भं दद्यात् संवत्सरं द्विजे मृदेहनितुकर्तव्यं प्रतिमांसं तु वत्सरं प्रदि संवत्सरं चैव मासमेकादशेऽहनिपिण्डांश्च गोजविप्रेभ्यो दध्यादग्नौ जलेऽपि वा प्रक्षिपेत् सत्सु विप्रेषु द्विजोत्तिष्ठं न मार्जयेद् अविश्यान्नेन वैमासं पायसेन दुवत्सरं मास्य हारिण कौरभ्रशागुणश्चागपार्श्वतैः येण कौरववाराः शाशैर्मां सैर्यथाक्रमं मासवृद्ध्याभितृप्यन्ति दत्तैरिहपितामहाः खड्गामिषं महाकल्पं मधु मुन्यन्नमेव च लोहामिश्रं महाशाकमांसं वार्ध्रीणसस्य च यो दताधिगयास्तश्च सर्वमानन्द्यमश्नुते तथा वर्षात्रयोदश्यां मखासु च विशेषतः कन्यां कन्या वेदिनश्च पशून् वै सत्सुतानपि द्यूतं कृषिं च वाणिज्यं द्वि शभैकशभांस्त धा ब्रह्मवर्चस्विन ब्रह्म स्वर्णरूप्ये स कुप्यके ज्ञाधिश्रैष्ट्यं सर्वकामानां नो दिश्राद्धतः सदा प्रदिपप्रभृतिष्वेकां वर्जयित्वा चतुर्दशीं शस्त्रेण दुःखदा ये वैतेभ्यस्तत्र प्रदीयते स्वर्गं ह्यपत्यमोजश्च शौर्यं क्षेत्रं बलं तथा पुत्रान् श्रेष्ठांश्च सौभाग्यं समृद्धिं मुख्यतां शुभं प्रवृत्तं चक्रदां चैव वाणिज्यप्रभृतीनि च अरोगित्वं यशोविदशोकदां परमां गदिं। धनं विद्यां भिषक्सिद्धिं कुप्यङ्गा अप्यजाविकं अप्यजाविकम् अश्वानायुश्च विधिवध्यश्राद्धं सम्प्रयच्छति कृत्तिकादिभरण्यतं सकामानाप्नुयादि मान् आस्तिकश्राद्धधानश्च व्यपेदमदमत्सरः वसुरुद्रादि सुधापितरश्राद्धदेवताः प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः धनं विद्यां स्वर्गं मोक्षं सुखानि च प्रयच्छन्ति तथा राज्यं प्रीताः प्रीता पितामहाः इत्येवं कथितं किञ्चित् कल्पाध्याये विशेषतः ज्ञातव्यं वैदिके तन्त्रे पुराणान्तरकेऽपि च य इमं चिन्तयेद्विद्वान् कल्पाध्यायं मुनीश्वर स भवेत् कर्मकुशल इहान्यत्र गतिं शुभां यशृणोदि नरो भवत्या दैवेः पित्र्ये च कर्मणि कल्पाध्यायं स लभदे दैवं पित्र्यक्रियाफलं धनं विद्यां यस्य पुत्रान् परत्र जगतिं पराम् अतः परं व्याकरणं तुभ्यं वेदमुखाभित्थं कथयिष्ये समासेन शृणुष्व सुसमाहितः इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे बृहदुपाख्याने येक एक एकपञ्चाशत्तमोऽध्यायः ओम्